महावाक्यरत्नावले श्रीः महावाक्यरत्नावलेः नाम श्रीमत्परमहंसप्र परिव्राजकाचार्य रामचन्द्रयतिग्रथित ईशावास्यादि अष्टोत्तरशतोपनिषदां सारसङ्ग्रहः पुणशीकरोपाव्यलक्ष्मणात्मजवासुदेवशर्मणा संशोधितः सप्तमं संस्करणम् महावाक्यरत्नावलिस्थविषयक्रमः वाक्यसङ्ख्या च विषयाः मङ्गलाचरणम् अष्टोत्तरशतोपनिषदः महावाक्यरत्नावलीपदयोजना च प्रथमं प्रकरणं विधिवाक्यानि षट्षष्टिः प्रकरणं द्वितीयं बन्धमोक्षवाक्यानि एकत्रिंशत् तृतीयं प्रकरणम् अविद्वद्निन्दावाक्यानि एकविंशत् चतुर्थं प्रकरणं जगन्मिथ्यावाक्यानि त्रयस्त्रिंशत् पञ्चमं प्रकरणम् उपदेशवाक्यानि चतुःपञ्चाशत् षष्ठं प्रकरणम् जीवब्रह्मैक्यवाक्यानि अष्टत्रिंशत् सप्तमं प्रकरणम् मननवाक्यानि एकोनचत्वारिंशत् अष्टमं प्रकरणं जीवन्मुक्तिवाक्यानि एकोनविंशत्यधिकशतम् नवमम् प्रकरणम् स्वानुभूतिवाक्यानि अष्टादशोत्तरशतम् दशमम् प्रकरणम् समाधिवाक्यानि पञ्चाशत् एकादशम् प्रकरणम् नानालिङ्गस्वरूपवाक्यानि द्वात्रिंशत् द्वादशम् प्रकरणम् पुल्लिङ्गस्वरूपवाक्यानि त्रिंशत् त्रयोदशं प्रकरणं स्त्रीलिङ्गस्वरूपवाक्यानि द्वादश चतुर्दशं प्रकरणं नपुंसकलिङ्गस्वरूपवाक्यानि एकोनचत्वारिंशत् पञ्चादशं प्रकरणम् आत्मस्वरूपमहावाक्यानि चत्वारिंशत् षोडशम् प्रकरणम् सर्वस्वरूपवाक्यानि सप्तदशम् प्रकरणम् ब्रह्मस्वरूपवाक्यानि चतुर्नवतिः अष्टादशम् प्रकरणम् अवशिष्टवाक्यानि षट्त्रिंशत् एकोनविंशम् प्रकरणं फलवाक्यानि चत्वारिंशत् विंशं प्रकरणम् विदेहमुक्तिवाक्यानि सप्तसप्ततिः विद्यादि विदेहकैवल्यन्तमहावाक्यानि अष्टोत्तरसहस्रम् उपसंहारः इति विषयानुक्रमणिका सम्पूर्णा